अत तैत्त्रीय आरण्यः प्रथमप्रश्नप्रारम्भः ओ भद्रम् दधातु ओम् शान्ति तिःशान्तिःशान्तिः भद्रम् कर्णेभिः शृणुयामदेवाः भद्रम् पश्येमाक्षभर्यधत्राः स्थिरैरङ्गैः सुष्टुवागुंसस्तनूभिः यशेम देव हि कैयदायुः स्वस्ति न इन्द्रो वृद्ध्यश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति न स्तार्क्ष्यो हरिष्टदेमिः स्वस्ति अग्निर्वायुश्च सूर्यश्च सहसञ्चस्करधिरायिवश्वार्ष्णिपतयः मरीक्ष्यात्मानो अद्रुहः देवेर्भुवनसोवरीः पुत्रवत्त्वायमे सुता महानाम्नेर्महामानाः महसो महस स्वः देवेः पर्जन्यसोवरीः पुत्रवत्त्वायमे सुत अपाश्लृष्णिमपारक्षः अपाश्ष्णिमपारघम् अपाघ्रामपचावर्तिम् अपदेवी वितोहिता वर्ज्रम् देवी विजेतादिष्ट भुवनम् देवसोवरीः आदित्या नदितिम् देवीम् योनिनोऽर्ध्वमुदीशत शिवा दशन्तमा भवन्तो दिव्या आपोषधयः सुमृळीका सरस्वती माधेव्योमसन्दृशी स्मृतिः प्रत्यक्षमैतिह्यम् अनुमानश्चतुष्टयम् एतैरादित्यमण्डलम् सर्वैरेव विधा आस्यते सूर्यो मरीचिमादत्ते सर्वस्माद्भुवनागधि तस्याः पाकविशेषेण स्मृतम् कालविशेषणम् नरीवप्रभवात् काचित् अकर्षयात्स्यन्दते यथा तान्नद्योऽभिसमायन्ति सोरः सती न निवर्तते एवन्नासमुत्थानाः कालाः संवत्सर्गश्रिताः अणुशश्च महषश्च सर्वे समभयन्त्रितम् स तैः सर्वैः समाविष्टः गोरुः सन्न निवर्तते अधिसंवत्सरम् विद्यात् तदेव लक्षणे अणुभिश्च महद्भिश्च समारूढः प्रदिश्यते संवत्सरः प्रत्यक्षेण नाधिसत्त्वः पटरो विक्रिधः पिङ्गः एतद्वरुणलक्षणम् यत्रैतदुपदृश्यते सहस्रम् तत्र नीयते एकगम् हि शिरो नानामुखे कृत्स्रन्तदृतुलक्षणम् उभयतः सप्तेन्द्रियाणि जल्पितन्ते वदिह्यते शुक्लकृष्णे संवत्सरस्य दक्षिणवाम पार्श्यो तस्ाव्रंते अततंते अषे अहनेौरिवासी विश्वा मया अवसीव भद्रा पूषन यहाँ रातिरस्वीभुवनमूषा न पशव दित्यः संवत्सर एव प्रत्यक्षेण प्रियतमम् विद्यात् एतद्द्विसंवत्सरस्य प्रियतमगम् रूपम् योऽस्य महानर्थ उत्पत्स्यमानो भवति इदम् पुण्यम् कुरुष्वेति षडभ्यमार्षयो देवजा इति तेषामिष्टानि विहितानि ध्यामसः स्थात्रे रेचन्ते विकृतानि रूपशः को नु सखा सखायमब्रवीर दहाको अस्मदीशते यस्तित्याजसखि विदघुम् सखायम् न तस्य भागो अस्ति यदीगम् शृणोर्त्यलकगम् शृणोति न हि प्रभेदसु कृतस्य पन्थामिति ऋतुर् ऋतुनानुद्यमानः इननागाभिधावः षष्टिश्च त्रिगुंशकाबल्बाः शुक्लकृष्णौ चषाष्टिकौ सारागवस्त्रैर्ज्वलदक्षः वसन्तो वसुभिः सह संवत्सरस्य सवितुः प्रैषत्प्रथमः स्मृतः अमोनादयतेत्यन्यान् अमोगुश्च परिरक्षतः एतावाचः प्रयुज्यन्ते यत्रैतदुपदृश्यते एतदेव विधानीयात् प्रमाणम् कालपर्यये विशेषणम् तु वक्ष्यामः ऋतोनान्तन्निबोधत शुक्लवासानुग्रगणः ग्रीष्मेणावर्तते सः निजहन् पृथिवेगम् सर्वाम् ज्योतिषा प्रतिघ्येन सह विश्वरूपाणि वा सा गुंसि आदित्यानान् निबोधत संवत्सरेणम् कर्मफलम् वर्षाभिर्ददता गुंसः अदुःखो दुःखचक्षुरिव पद्मापीत इव दृश्यते शीतेना व्यथयन्निव गुरुदक्ष इव दृश्यते ह्लादयते ज्वलतश्चैव शाम्यतश्चास्य चक्षुषी या वै प्रजाभ्रगृह्यन्ते संवत्सरा ताभ्रगृहष्यन्ते याः प्रतितिष्ठन्ते संवत्सरे ताः प्रतिष्ठन्ति वर्षाभ्यगित्यर्थः अक्षिदुःखोत्थितस्यैव विप्रसन्ने कनीनिके आन्ते चाद्गणन्नास्ति ऋघूणान्तम् निबोधत कनकाभानि वासादुंसि अहदानि निबोधत अन्नमश्मीतमृज्मीत अहम्बो जीवनप्रदः एतावाचः प्रयुज्यन्ते शरद्यत्रोपदृश्यते भिधोन्वन्तोऽभिघ्नन्त इव पातवन्तो मरुद्गणाः अमुतो धेतुमिषु मुखमिव सन्नद्ध्याः सह ददृशेः अवध्वस्तैर्वस्तिवर्णैरिव शिखासः कवर्दिनः अर्क्रुद्धस्य योत्स्यमानस्य क्रुद्धस्ये बलोहिनी हेमतश्चक्षुषि अक्ष्मयोः क्षिपणोरिव दुर्भिक्षम् देवलोकेषु मनो मनोना गृहे एता वाचः प्रवदन्तीः वैद्युतो यान्ति शैशिरीः ता, शैशिरी ता अग्निः पवमाना अन्वयेक्षदा विहजीविकामपरिपश्यन् तस्य एषा भवति विहेहवस्व तपसः मरुतः शर्मसप्रधा शर्मस प्रथा आवृणे अतिताम्राणि वा सा दुंसि अष्टिवज्विशतघ्नि च विश्वे देवा विप्रहरन्ति अग्निजिह्वासश्चत नैव देवो न मर्त्यः न राजा वर्णाविभुः नाग्न्यर्णेन्द्र न पवमानः दिव्यस्यैका धनुरार्त्निः पृथिव्यामपराश्रिता तस्येन्द्रोगम्रिरूपेण धनुर्ज्याम छिनत्स्वयम् तदिन्द्रधनुरित्यज्यम् अभ्रवर्णेषु चक्षते एतदेव शृङ्गोर्वारिहस्पत्यस्य एतद् धनुः रुद्रस्य त्वेव धनु शिर उत्पिपेषा सप्रवर्ग्योऽभवत् तस्माद्यः स प्रवर्गेण यज्ञेन यजते रुद्रस्य सशिरः प्रतिदधाति नैनगुम् रुद्र आरुको भवति य एवम् वेद पत्योर्ध्वाक्षोतिरष्टात् शिशिरः प्रदृश्यते नैव रूपम् न चक्षुः प्रति दृश्यते अन्योन्यम् तु न हि व्यस्रातः सतस्तद्देवलक्षणम् लोहितोऽक्ष्णिसारशीर्ष्णिः सूर्यस्योदजनम् प्रति त्वम् करोषिण्यञ्झलिकाम् त्वम् करोषि निजानुकाम् निजानुकामेन्यञ्झलिका अमे वाचमुपासतामिति तस्मै सर्वर्तवो न मन्ते मर्यादागरत्वात्प्रपुरोधा ब्राह्मण आप्नोति एवम् वेद स खलु संवत्सरजेतैः सेनानिभिः सह इन्द्राय सर्वान् कामानभिवहति स द्रप्सः तस्य एषा भवति अवद्रप्सो अगुं सुमतीमतिष्ठत् ्यानः कृष्णो दशभिः सहस्रैः आवर्तमिन्द्रश्च्याधमन्तम् उपस्नुहितम् रमणामछद्रामिति एतयैवेन्द्रः सलावृक्या सह असुरान् परिवृष्टति पृथिव्यगुम् सुमति तामन्ववस्थितः संवत्सरो दिवम् वासिनौ अन्योन्यस्मै गृह्यताम् यो गृह्यते भ्रश्यते स्वर्गाल्लोकात् इत्युक्त मण्डलानि सूर्यमण्डला अन्याक्षायिकाः अत ऊर्ध्वगम् सनिर्वचनाः आरोगोभ्राजः पटरः पतङ्गः विभासः ते अस्मै सर्वे दिवमातपन्ति ओर्जन् दुहानाननपस्फुरन्त इति कस्य पोष्टमः स महामेरुन्न जहाति तस्य एषा भवति यत्ते शिल्पम् कस्य परोचनावत् इन्द्रियावत्पुष्कलञ्चित्रभानो अर्पिता सप्त तस्मिन्राजानमधिविश्रयेममिति ते अस्मै सर्वे कश्यपाद् ज्योतिर्लभन्ते तान् सोमः कश्यपादधिनिर्धमति भ्रस्ताकर्मकृतिवैवम् प्राणो जीवानीन्द्रियजीवानि सप्तशीर्षण्याः प्राणाः सूर्या इत्याचार्याः अपश्यमहमेतान् सप्तसौर्यानिति पञ्चकर्णो वास्यायनः सप्तकर्णश्च प्राक्षिः आनुश्रविकजेव नौकश्यप इति उभौ वेदलिते नहि सेतुमिव महामेरुम् गन्तुम् अपश्यमहमेतत्सूर्यमण्डलम् परिवर्तमानम् दार्यः प्राणत्रातः गच्छन्त महामेरुम् एकम् चा जहतम् भ्याजपटरपतङ्गानिघने तिष्ठन्नातपन्ति okay. तस्मादिहतप्रितपाः अमुत्रेतरे तस्मादिहातप्रितपाः तेषामेषा भवति सप्तसोर्यादिवमनुप्रविष्टाः नन्वेति पथिभिर्दक्षिणावान् ते अस्मे सर्वे घृतमातपन्ति पूर्जन्दुहाना दुहा नापस्फुरन्त इति सप्त त्विजः सूर्या इत्याचार्याः तेषामेषा भवति सप्त नानासूर्याः सप्त देवा आदित्या ये ते सोमाभि रक्षण इति तदप्याम्राजः द्यग्भ्राजऋतोम् करोति ये तयैवावृता सहस्रसूर्वताया इति वैशम्पायनः कस्यैषा भवति यद्याव इन्द्र ते शतविंशतम् भूमेः पुरास्योः नत्वा वज्रेणसहस्रगुंसूर्याः अनुनजातमष्टरोदसी इति नानालिङ्गत्वा धृतो नान्नासोर्धत्वम् नाना अष्टौ तु व्यवसिता इति सूर्यमण्डलान्यष्टात ऊर्ध्वम् तेषामेषा भवति चित्रम् आप्राद्या वा पृथिवी अन्तरिक्षम् सूर्य आत्मा जगतस्तस्थुषश्चेति क्वेदमभ्यम् निविशते क्वायगुम् संवत्सरो मिथः वाहः क्वेजम् देवरात्री त्वमासारितवश्रिताः वा अर्धमासा मुहूर्ताः निमेषास्त्रुटिभिः आपो निविशन्ते यदितो यान्ति सम्प्रति काला अप्सु निविशन्ते समाहिताः अभ्राण्यपः प्रपद्यन्ते विद्युत्सूर्गे समाहिता अनवर्णे विद्युत इमे भूमि इयम् चासौ छरोदसि यज्ञस्विदत्रान्तराभूतम् येनेमे मे विधृते उभे विष्णुना विधृते भूमि इति वत्सस्य वेदना इरावती धेनुमतीः भूतम् सूयवसिनि मनुषे दशस्ये व्यष्टभ्रा द्वोदसि विष्णवेते दाधर्थपृथिवीमभितो मयूखैः किम् तद्विष्णोर्बलमाहुः आदीप्तिः किम् परायणम् एकोजद्धारयद्देवः रेजति रोदसी उभे पाताद्विष्णोर्बलमाहुः अक्षराद्दीप्तिरुच्यते त्रिपदाद्धारयद्देवः यद्विष्णोरेकमुत्तमम् एक अग्नयो वायवश्चैव एतदस्य परायणम् पृच्छामि त्वापरम् नृत्यम् अपमम् मध्यमम् च तम् लोकम् च पुण्यपापानाम् एतत्पृच्छामि सम्प्रति अमुमाहुः परम् नृत्यम् अवमानन्त्वमध्यमम् अग्निरेवापमो मृत्युः चन्द्रमाश्च दरुच्यते अनाभोगाः परम् नृत्यम् पापाः सङ्यन्ति सर्वदा आभोगास्त्वेव सङ्यन्ति यत्र पुण्यकृतो जनाः ततो मध्यममायन्ति चतुरमग्निम् च सम्प्रति पृच्छामि त्वापापकृतः यत्र जातयते त्वन्नस्तद्ब्रह्मन् प्रब्रूहि यदि वेच्छासको गृहान् कश्यपादिकाः सूर्याः पापान्यर्घन्ति सर्वदा रोदस्योरन्तर्देशेषु तत्र न्यस्यन्ते वासवैः ते शरीराः प्रपद्यन्ते यथा पुण्यस्य कर्मणः अपारण्यपादकेशा सह तत्र तेजो निजा जनाः मृत्वा पुनर्मृत्युमापद्यन्ते पद्यमाना स्वकर्मभिः आशादिकाः क्रिमय इवा ततः पूयन्ते वासवैः अपैतम् मृत्युञ्जयति य एवम् वेद स खल्वैवम् विद्ब्राह्मणः दीर्घश्रुत्तमो भवति कस्य पश्यातिथिः तस्यैषा भवति आयस्मिन् सप्तवासवाः रोहन्ति पूर्व्यारुहः ऋषिर्हदीर्घश्रुत्तमः इन्द्रस्य घर्म अतिथिरिति कश्यपः पश्यको भवति यत्सर्वम् परिपश्यतीति सौक्ष्म्यात् अथाग्नेरष्टपुरुषस्य तस्य एषा भवति अग्नेन य सुपथा राजे अस्मान् विश्वानि देववजुनानि विद्वान् युजोऽध्यस्मद्युः राणमेनः भोजिष्ठान्तेन उक्तिम् विघेमेति अग्निश्च जातवेदाश्च स होजा अजिरा प्रभो वैश्वानरो नर्जापाश्च पङ्क्तिराधाश्च सप्तमः निसर्पे वाष्टमाग्नीनाम् एतेष्टौ वसवः क्षिताविति यथत्वेवाग्नेरर्चर्वर्णविशेषाः नीलार्चिश्च कीतकार्चिश्चेति अथवायोरेकादशपुरुषस्यैकादशस्त्रेकस्य प्रभ्राजमानाव्यवधाताः याश्च वासिकि वैद्युताः रजताः परुषाः श्यामाः कपिला अतिलोभिताः ऊर्ध्वा अवपतन्ताश्च वैद्युत वेदाः नैलम् विद्युद्वधमेवाहम् मृत्युमयेच्छमिति न त्वकामगम् हन्ति एवम् वेद अथ गन्धर्वगणाः स्वानभ्राट् अन्धारिग्बम्भारिः हस्तः सुहस्तः कृशानर्विश्वावसुः मूर्धन्वान्सोर्जवर्चाः कृतिरित्येकादशगन्धर्वगणाः देवाश्च महादेवाः रश्मयश्च देवागिरः नैनङ्गरो हिनस्ति य एवम् वेद गौरी विमायसलीला निपक्षती एकपदी द्विपदि सा चतुष्पदी अष्टापदी सहस्राक्षरा परमेव्यो सहस्राक्षरापरमे वाचो वाचोऽविशेषणम् अथनिकदव्याख्याताः ताननुक्रमिष्यामः पराहवः स तपसः विद्यन्मह सोऽधोपयः श्वापयोगृहमेधाश्चेत्येते ये चेमेषिमिवेद्विषः पर्जन्याः सप्त पृथिवीमभिवर्शन्ति वृष्टिभिरिति ये तजैव विभक्तिविपरीताः सप्तभिर्वातैरुदीरिताः अमोन्वाकानभिवर्षन्ति तेषामेषा भवति समानमेतदुदकम् उच्चैत्यवचाहभिः भूमिम् पर्जन्या जिन्वन्ति दिवम् जिन्वन्त्यग्नय इति विरक्षरम्भूतकृतम् विश्वे देवा उपासते महर्षिमस्य गोप्तारम् जमदग्न्यमकुर्वत जमदग्निराप्याजते छन्दोभिश्चतुरुत्तरैः राज्ञः सोमस्य तृप्ता सह ब्रह्मणा वेर्यावत शिवानः प्रदिशो दिशः अच्छञ्जोरावृणेमहे गातुम् यज्ञाय गातुम् यज्ञपतये दैवी स्वस्तिरस्तुनः स्वस्तिर्मानुषेभ्यः ओर्ध्वम् जिगातुभेषजम् शन्नो अस्तु द्विपदेः सोमपा असोमपा इति गतव्याख्याताः सहस्रकृदिजम् भूमिः परम् योमसहस्रकृत् अश्विनाभृद्ध्यो नासत्या विश्वस्य जगतः स्पति भूमिः पतिर्भ्योम मिथुनन्ता अतुर्यथोः पुत्रो बृहस्पति रुद्रः सरमा इति स्त्री पुमाम् शुक्रम् वा मन्यद्यजतम् वा मन्यत् विषरूपे अहने ग्यौरिवस्थः विश्वाहि माया अवशस्वधावन्तौ भद्रावाम् पोषणा त्रौ चित्रौ जगतो निधानौ या वा भूमे चरथः स तुम् सखादौ तावश्विनादासभाश्वाहवम् मे शुभस्पती आगतगवम् सोऽजाया सह त्युग्रोह अवाहाः तमोहसर्णौभिरा आत्मन्वतीभिः अन्तरिक्षप्रग्भिरपोदकाभिः तिस्रः क्षपस्त्रिरहातिव्रजद्भिः नासत्या भुज्यमोहः पतङ्गैः समुद्रस्य धन्वन्नार्द्रस्य पारे त्रिभेरथैः शतपद्भिः षडश्वैः सवितारम्बितन्वन्तम् अनुबध्नातिशाम्बरः आपपूरुषम् वरश्चैव सवितारे पशोभवत् यगुम् सुतृप्तम् विदित्वैव बहु सोम गिरम् वशी अन्वेति तु गोवक्रिगान्तम् आयसूयान् सोमतृक्सुषु सुसङ्ग्रामस्तमो आद्योद्योतः पाचो गाः रक्षसानन्विताश्च ये अन्वेति परिवृत्यास्तः एवमेतौ स्थो अश्विना ते एते द्युः पृथिव्योः अहरहर्गर्भम् दधाथे तयोरेतौ वत्सावहो रात्रे पृथिव्या अहः दिवो रात्रिः ता अविसृष्टौ दम्पती एव भवतः तजोरेतौ वत्सौ अग्निश्चादित्यश्च रात्रेर्वत्सः श्वेत आदित्यः अह्नोऽग्निः ताम्रो अरुणः ता अविसृष्टौ दम्पती एव भवतः तयोरेतौ वत्सौ वृत्रश्च वैद्युतश्च अग्नेर्वृत्रः वेद्युत आदित्यस्य ता अविसृष्टौ दम्पती एव भवतः तयोरेतौ वत्सो युष्मा च निहारश्च वृत्रस्योष्मा वैद्युतस्य निहारः कौतावेव प्रतिपद्येते सेयगम् रात्रि गर्भिणी पुत्रेण संवसति तस्या वा यद्रात्रौ रश्मयः गर्भिण्या उल्बणं उल्बणं यथागर्ण्याबणत उजजिष्ण प्रजया चशुभिश्चमी ये आदि पुण्य वत्स अथ पविति पवित्रबंध परीवाजमासते इतैषाम् रत्नो अभिरक्षति व्रतम् महः समुद्रम् वरुणस्तिरोदधे धीराजिच्छेकुर्धरुणे श्वारभम् पवित्रम् ते विततम् ब्रह्मणस्पते प्रभुर्गात्राणि पर्येषु विश्वतः अतत्ततनोर्नतगामो अश्नुते श्रुता स यद्वहन्तस्तत्समासत ब्रह्मादेवानाम् असतः सद्येततक्षुः ऋषयः सप्तात्रिश्च यत् सर्वे त्रयो अगस्त्यश्च नक्षत्रैः सङ्कृतोपसन् अथ सवितुवाश्वस्यावर्त्तिकामस्य अमीजरिक्षा निहितास उच्चारम् नदृश्रेकुहचिद्दिवेजोः अदब्धानि वरुणस्य व्रतानि विचाकशन्द्रमानक्षत्रमेति तत्सपितुर्वीमहि नः प्रचोदया तत्सवितुर्वृणीमहे वयम् देवस्य भोजनम् श्रेष्ठगम् सर्वधातमम् तुरम्भगस्य धीमहि अपागोहत सवितातृभ्येन सर्वान् दिवो अन्धसः न कन्तान्यभवम् दृशे अस्थ्यस्थसम्भविष्यामः नाम नामैव नाम मे न ना पुपुंसकम् पुमादिस्त्यस्मि स्थावरोऽस्न्यथजङ्गमः यजे यक्षियष्टाहे च मया भूतान्ययक्षत शवो मम भूतानि अनोबन्ध्योऽस्म्यहम् विभुः स््यजः सतेः ताउ मे पुंस आहुः कश्चदक्षण्वान्नविचेतदन्धः कल्यः पुत्रः स हिमाचिकेत यस्ता विजानात् स वितुः पिता सत् अन्धो मणिमविन्दत् तमनङ्गुनिरावयत् अग्रेवः प्रत्यमुञ्चत् तमजिह्वा असस्तता ूर्ध्वमूलमवाच्छाखम् वृक्षम् यो वेदसम्प्रति न स जातु जनः श्रद्वध्यात् प्रत्यर्मा मा रजादितिः हसितगम् मृदितम् गीतम् वेणापनभरासितम् अस्माज्जाता मे मिथो चरन् पुत्रो निरृत्या वै देहः अचेतायश्च चेतनः शतम् मणिमविन्दत् सोऽनङ्निरावयत् सोऽः प्रत्यमुञ्चत् सो, सो, सो जिह्वो असश्चत नैतमृषिम् विदित्वा नगरम् प्रविशेत् यदि प्रविशेत् मिथौ चरित्वा प्रविशेत् तत्सम्भवस्य व्रतम् आतमग्ने रथम् एका अश्वमेकयोजनम् एकचक्रमेकधुरम् आतभ्राजिगतिम् विभो नरिष्यति न व्यथते नास्याक्षो यातु सज्जति यच्छेता या आन्ोहिता गिष्ठाग्नेः रथे ल्युक्त्वाधि एकया च दशभिश्च स्वभूते वाभ्यामिष्टये विगुंसत्या च तिसर्भिश्च वहसे त्रिगुंसता च नयुद्भ्यर्वायविहताभिमु आतनुष्व प्रतनुष्व उद्धमाधमसन्धम आदित्ये चन्द्रवर्णाना गर्भमाधे हृयः पुमान् हितः सित्तपुंसोऽगतम् चन्द्रमसेरसङ्कृधि वारादञ्जनजाग्रेऽग्निम् य एको रुद्र उच्यते असङ्ख्याता सहस्राणि स्मर्यते न च दृश्यते एवमेतन्निबोधत आमन्द्रैरिन्द्रहरिभिः याहि मयूररोमभिः मात्वा केचिन्नि ये के मुरिन्नपाशिनः दधन् वे मंद्रैरीद्रहि या मयूररोम के चिन्नजे मुरीन्शिन धन भाई इणुभिस्हद्भिचर सयुत कालैरह इंद्राजा सहस्रजुग अग्निभ्राष्टिवसन वाजुश्वेतसि कद्रुकः संवत्सरोपि शो वर्णैः नित्यास्तेऽनुचरास्तव सुब्रह्मण्योगम् सुब्रह्मण्योगम् सुब्रह्मण्याम् इन्द्रागच्छहरिव आगच्छ मेधातिथेः मेषवृषणश्वस्य मेने गौरावस्कन्दिर्महल्यायै जार कौशिकब्राण गौतम ब्रुवाण अरुणाश्वागता बसव पृथ्विवीक्षि अष्ट दिग्वासोनजातश्वास्तावर्णास्त दण्डहस्ताः खादग्दः इतो रुद्राः पराङ्गताः उक्तग्निस्थानम् प्रमाणम् च पुरयित बृहस्पतिश्च सविता च विश्वरूपैरिहागता रथेनोदकवर्त्मना अप्सुषा इति तद्वयोः उक्तो वेषो वासागुंसि कालावयमानामितः प्रतीज्या दासात्या इत्यश्विनोः कोऽन्तरिक्षे शब्दम् करोतीति वासिष्ठो रोहिणो मी मागुंसाञ्चक्रे तस्यैषा भवति वा विद्युदिति ब्रह्मण उदरनमसि ब्रह्मण उदीर्णमसि ब्रह्मण आस्तरनमसि ब्रह्मण उपस्तरनमसे अष्टयोनि अष्टपुत्राम् अष्टपत्नीमा महीनिम् अहं वे दनमे मृत्युः दचा मृत्युरघाहरत् अष्टयोन्यष्टपुत्रम् अष्टपगिदमन्तरिक्षम् अहं वे मृत्युः प्रजा मृत्युरघाहरत् अष्टयोमष्टपुत्राम् अष्टपत्नीममोम् दिवम् अहं वेदन मे मृत्युः न चामृत्युरथाहरद सुप्रामाणम् मही मूषो अदितिर्भ्योरदितिरन्तरिक्षम् अदितिर्माता स पिता स पुत्रः विश्वे देवा अदितिः पञ्चजनाः अदितिर्जातमदितिर्जनित्वम् अष्टौ पुत्रासो अदितेः ये जातास्तम्भः परि देवा उपप्रैत्सप्तभिः परामार्ताण्डमास्यत् सप्तभिः पुत्रैरदितिः उपप्रैत्पूर्ययुगम् प्रजायै मृत्यवेतत् परामार्ताण्डमाभरदिति आननुक्रमिष्यामः मित्रश्च वरुणश्च धाता चा हार्दमा च मुगुंशश्च भगश्च इन्द्रश्च विवस्वागिश्चेद्येते हिरण्यगर्भो हपुंसः शुचिषत् ब्रह्मजज्ञानन्तदित्पदमिति गर्भः प्राजापत्यः अथ पुरुषः सप्तपुरुषः योऽसौ तपन्नुदेति स सर्वेषाम् भूतानाम् प्राणानादायोदेति वा मे प्रजायामा पशूनाम् मा मम प्राणानादायोदगाः असौ योऽस्तति स सर्वेषाम् भूतानाम् प्राणानादायास्तमेति मामे प्रजायामा पशूनाम् मा मम प्राणानादायास्तङ्गाः असौ य आपूर्जति स सर्वेषाम् भूतानाम् प्राणीरापूर्जति मा मे प्रजायामा पशूनाम् मा मम प्राणैरापूरिष्ठाः असौ योपक्षीयति स सर्वेषाम् भूतानाम् प्राणैरपक्षीयति मामे प्रजायामा पशूनाम् मा मम प्राणैरपक्षेष्ठाः ममो निरक्षत्राणि सर्वेषाम् भूतानाम् प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च मामे प्रगायामापशूनाम् मा मम प्राणैरप प्रसृपदमोत्सृपद इमे मासाश्चार्ध्वमासाश्च सर्वेषाम् भूतानाम् प्राणैरपप्रसर्पन्ति चोत्सर्पन्ति च मामे प्रगायामा पशूनाम् मा मम प्राणेरप प्रसृपधमोत्सृपद किमऋतवः सर्वेषाम् भूतानाम् प्राणेरप प्रसर्पन्ति चोत्सर्पन्ति च मामे प्रजायामा पशूनाम् मा मम प्राणेरप प्रसृपधमोत्सृपद अयघुं संवत्सरः सर्वेषाम् भूतानाम् प्राणेरप प्रसर्पति चोत्सर्पति च मामे प्रजायामा पशूनाम् माम प्राणेरप प्रसृपमोत्सृप इदमहः सर्वेषाम् भूतानाहम् प्राणेरव प्रसर्पति चोत्सर्पति च मामे प्रजायामा पशूनाम् मा मम प्राणेरव प्रसृपमोत्सृप यदम् रात्रिः सर्वेषाम् आमे ये प्रजायामा पशूनाम् मा मम प्राणेरप प्रसृपमोत्सृप ॐ भोर्भुवस्वः एतद्वो मिथुनम् मा नो मिथुनगुम् रेध्वम् अथादित्यस्याष्टपुरुषस्य पशूनामादित्यानागस्थानेष्वतेजसाभानि रुद्राणामादित्यानागस्थानेष्वतेजसाभानि आदित्यानामादित्यानागस्थाने स्वतेजसाभानि सदागम् सत्यानाम् आदित्यानागस्थाने स्वतेजसाभानि अभिधून्वतामभिघ्नताम् आतवताम् मरुताम् आदित्यानागस्थाने स्वतेजसाभानि रभूणामादित्यानागस्थाने स्वतेजसाभानि विश्वेषाम् देवानाम् आदित्यानागस्थाने स्वतेजसाभाने संवत्सरस्य सहितुः आदित्यस्य स्थाने स्वतेजसाभाने ओम् भोर्भुवः स्वः रश्मयोगो मिथुनम् मानो मिथुन तु रेड्वम् आरोगस्य स्थाने स्वतेजसाभाने भ्राजस्य स्थाने स्वतेजसाभाने पटरस्य स्थाने स्वतेजसाभाने अपतङ्गस्य स्थाने स्वतेजसाभानि स्वर्नरस्य स्थाने स्वतेजसाभानि ज्योतिषीमतस्य स्थाने स्वतेजसाभानि विभासस्य स्थाने स्वतेजसाभानि कश्यपस्य स्थाने स्वतेजसाभानि ओम् भूर्भुवस्वः आको वो मिथुनम् मानो मिथुनगुम् रेढ्वम् अथ आयोरेकादशपुरुषस्यैकादशस्त्रीकस्य प्रभ्राजमानानागम् रुद्राणागस्थाने स्वतेजसाभानि यवदातानागुम् रुद्राणागस्थाने स्वतेजसाभानि पाशुकिवेद्युतानागुम् रुद्राणागस्थाने स्वतेजसाभाने रजतानागुम् रुद्राणागस्थाने स्वतेजसाभाने परुषाणागुम् रुद्राणागस्थाने स्वतेजसाभाने श्यामानागम् रुद्राणागस्थाने स्वतेजसाभानि कपिलानागम् रुद्राणागस्थाने स्वतेजसाभानि अरिरोहितानागम् रुद्राणागस्थाने स्वतेजसाभानि वोर्ध्वानागम् रुद्राणागस्थाने स्वतेजसाभानि अववृतन्तानागम् रुद्राणागस्थाने स्वतेजसाभानि वैद्युतानागुम् रुद्राणागस्थाने स्वतेजसाभानि प्रभ्राजमानेनागुम् रुद्राणीनागस्थाने स्वतेजसाभानि यवदातीनागुम् रुद्राणीनागस्थाने स्वतेजसाभानि वासुविवैद्युतीनागुम् रुद्राणीनागस्थाने स्वतेजसाभानि रजतानागुम् रुद्राणेनागस्थानेष् स्वतेजसाभाने वरुषाणागुम् नागस्थाने स्वतेजसाभानि श्यामानागुम् रुद्राणीनागस्थाने स्वतेजसाभानि कपिलानागुम् रुद्राणीनागस्थाने स्वतेजसाभानि अतिलोहितीनागुम् रुद्राणीनागस्थाने स्वतेजसाभानि ऊर्ध्वानागुम् रुद्राणीनागस्थाने स्वतेजसाभानि अववदन्तेनागुम् रुद्राणीनागुस्थाने स्वतेजसाभानि वैद्युतेनागुम् रुद्राणीनागुस्थाने स्वतेजसाभाने ओम् भोर्भुवस्वः रूपाणि वो मिथलम् मानो मिथलगम् रेढ्वाम् अथाग्नेरष्ट्रपुरुषस्य अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसाभानि जातवेदस उपदिश्यस्य स्थाने स्वतेजसाभानि सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेजसा भाने हजिराप्रभव उपदिश्यस्य स्थाने स्वतेजसा भाने वईश्वानवस्यापरदिश्यस्य स्थाने सुतेजसा भाने नर्यापस उपदिश्यस्य स्थाने सुतेजसा भाने मन्दिराधस उदग्दिश्यस्य स्थाने सुतेजसा भेशिण उपदिश्यस्य स्थाने सुतेजसा भाने म् भोद्भुवस्वः दिशो मो मिथुनम् मानो मिथुनगुम् रे द्वाम् दक्षिणपौरवस्याम् दिशि विसर्पे नरकः तस्मान्नः परिपाहे दक्षिणापरस्यान् दिश्यविसर्पे नरकः तस्मान्नः परिपाहे उत्तरपौरवस्याम् दिशिविषादे नरकः तस्मान्नः परिपाहे नरकः तस्मान्नः परिपाहि आयस्मिन् सप्त वासवा इन्द्रियाणि शतकृतमित्येते इन्द्रघोषावो वुसुभिः पुरस्तादुपदधताम् मनोजवसो वः पितृभिर्दक्षिणत उपदधताम् प्रचेतावोरुद्रैः पश्चादुपदधताम् विश्वकर्माव आदित्यैरुत्तरत उपदधताम् त्वष्टावोरूपैरुपरिष्टादुपदधताम् ज्ञानम् वः पश्चादिति आदित्यः सर्वोऽग्निः पृथिव्याम् वायुरन्तरिक्षे सोऽ दिवि चन्द्रमादिक्ष नक्षत्राणि स्वलोके एवाह्येव एवाह्यग्ने एवा हि वायु एवा हि इन्द्र एवा हि आपमापा मपस्सर्वा आपमाप्वाह अस्मस्मा मुता आग्नवायुश्चर्यच सह संचस्करु विश्वाशिपत हरे यमो अद्रुह दभुवनसोवरे पुत्रवत्ज मे सुता महाना महसो महसस्व देवेः पर्जन्यसोवरेः पुत्रवत्त्वायमे सुता अपास्निष्णिमपारक्षः अपास्नृष्णिमपारघम् अपाघ्रामपचावर्तिम् अपदेवे रितोहिता वज्रम् देवे रचयिता गिश्च भुवनम् देवसोवरेः आदित्यानदितिम् देवीम् योनिनोर्ध्वमुदीशत भद्रम् कर्णेऽभिः शृणुयाम देवाः भद्रम् पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैः स्तुष्टुवागुंसस्तनूभिः यशेम देवहितम् यदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा स्वस्ति नस्तार्क्ष्य अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातो अरुणाशष्टा ऋषयोपातरशनाः प्रतिष्ठागं शतधाहि समाहितासो सहस्रधायसम् शिवा नः सन्तमा भवन्त दिव्या आपौषधयः स्मरणीका सरस्वती माते व्योमसन्दृशिरूपाम् पुष्पम् वेद पुष्पवान् प्रजा वा अन्पुष्मान् भवति चन्द्रमा वा पुष्पम् पुष्पवान् प्रजावा अन्पुष्मान् भवति य एवम् वेद यपामायतनम् वेद आयतनवान् भवति अग्निर्वा अपामायतनम् आगतनवान् भवति योऽग्नेरायतनम् वेद आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति य एवम् वेद यो पामायतनम् वेद आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनम् वेद आयतनवान् भवति आपो वै वायोजोरागतनम् आयतनवान् भवति य एवम् वेद यो पामायतनम् वेद आयतनवान् भवति असौ वैतपन्नपामायतनम् आयतनवान्भवति योऽमुष्यतपत आयतनम् वेद आयतनवान्भवति आपो वा अमुष्यतपत आयतनम् आयतनवान्भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान्भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनम् वेद आयतनवान् भवति आपो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान् भवति नक्षत्राणि वा अपामायतनम् आयतनवान्भवति यो नक्षत्राणामायतनम् वेद आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवम् वेद योऽपामायतनम् वेद आयतनवान्भवति अर्जन्यो वा अपामायतनम् आयतनवान्भवति यः पर्जन्यस्यायतनम् वेद आयतनवान्भवति आपो वै पर्जन्यस्यायतनम् आयतनवान्भवति य एवम् वेद योपामागतनम् वेद आयतनवान्भवति संवत्सरो वा अपामागतनम् आयतनवान्भवति यः संवत्सरस्यागतनम् वेद आयतनवान्भवति आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवम् वेद यो ओप्सुना वम्रतिष्ठिताम् वेद प्रत्येपतिष्ठति इमे वै लोका अप्सुप्रतिष्ठिताः तदेषाभ्यनोक्ता अपागुं रसमुदयगुंसन् सूर्ये शुक्रगुम् समाभृतम् अपागुं रसस्य यो रसः तम् वो गृह्णाम्युत्तममिति इमे वै लोका अपागुं रसः ते जानुदघ्नीमुत्तरवेदेम् खात्वा अपाम् पूरयित्वा गुल्फदघ्नम् पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च सग्निस्तीर्य तस्मिन्विधायसे अग्निम् प्रणेयोपसमाधाय ब्रह्मवादिनो वदन्ति तस्मात् प्रणीतेजमग्निश्चीयते सा असौ भुवनेऽप्यनाहिताग्निरेताः तमभितयेता अभीष्टका उपदधाति अग्निहोत्रे दर्शतोर्णमासयो आह पशुबन्धे चातुर्मास्येषु असौ आहुः सर्वेषु यज्ञक्रदस्मिति एत एतद्ध्यस्म वा आहुः शण्डिराः कमग्निञ्चिनुते सक्रियमग्निम्ञ्चिन्वानः संवत्सरम् प्रत्यक्षेण कमग्निनुते सावित्रमग्नििन्वानः अमुमादित्यम् प्रत्यक्षेण कमग्निनुते नाचिकेतमग्निञ्चिन्वानः प्राणान्प्रत्यक्षेण कमग्निञ्चनुते प्रादुर्होत्रियमग्निञ्चिन्वानः ब्रह्म प्रत्यक्षेण कमग्निम् चिनुते वैश्वस्रियमग्निञ्चिन्वानः शरीरम् प्रत्यक्षेण कमग्निम् चिनुते वानुवाक्यमाशुमग्निम्ञ्चिन्वानः इमान् लोकान् प्रत्यक्षेण कमग्निम् चिनुते इममारुणकेतुकमग्निञ्चिन्वान इति यदेवासौ इतश्चामुतश्चाव्यतीपाति तमिति योऽग्नेऽर्मिषूया वेद विषुनवान् भवति आपो वा अग्नेर्मिथूयाः विशृणवान् भवति य एवम् वेद आपो वा इदमासाम् शरीरमेव स प्रजापतिरेकः पुष्करपर्णे समभवत् तस्याम् तर्मनसि कामः समवर्तत इदगम् सृजेजमिति तस्माद्यत्पुरुषो मनसाभिगच्छति तद्वाचा वदति तत्कर्मणा करोति तदेषाभ्यनोक्ता कामस्तदग्रे समवर्तताधि मनसो रेतः प्रथमम् यदासीयेत् सतो बन्धुमसति निरविन्दम् हृदि प्रदेश्या कमलो मनीषेति उपैदम् तदुपनमति यत्कामो भवति य वेदा, वेद स शरीरमधोऽनुता तस्य जन्मागुम् समासीत् ततो रुणाः के तो मातर्शनार्षद उदतिष्ठन् येन खा आह ते वैखानसाः ये बाला आह दे बालखिल्याः यो रसः मम वै त्वम् मागुंसा समभूत् नेत्यब्रवीत् पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम् सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् भूत्वोदतिष्ठत् त्वमब्रवीत् त्वम् वै पूर्वगम् समभोः त्वमिदम् पूर्वः कुरुष्वेति स इत आदायापः अञ्जलिना पुरस्तादुपादधात् एवाह्येवेति तत आधिक्य उदतिष्ठत् सा प्राचेदिक अथारुणः केतुर्दक्षिणत उपादधात् एवाह्यग्न इति ततो वा अग्निरुदतिष्ठत् सा दक्षिणादिक् अथारुणः केतुः ये वाहि वायु इति ततो वायुरुदतिष्ठत् सा प्रतिचेदिक अधारुणः केतुरुत्तरत उपादधाद् एवाहीन्द्रेति ततो वा इन्द्र उदतिष्ठत् सोदे चेदिक अधारुणः केतुर्मध्य उपादधात् देवाहि पूषन्निति ततोऽपि पूषोदतिष्ठत् सेयन्द्रिक् अथारुणः केतुरुपरिष्टादुपादधाद् एवा हि देवा ततो देवमनुष्याः पितरः गन्धर्वाप्सरसश्चोदतिष्ठन् सोऽध्वादिक् या विप्रषो विपरापदन् ताभ्योऽसुरारक्षागंसि पिशाचाश्चोदतिष्ठन् तस्मात्ते पराभवन् विप्रग्भ्यो समभवन् तदेशाध्यनोक्ता आपोहयद्बृहतेर्गर्भमाजन् दक्षम् दधाना जनयन्ते स्वजम्भम् तत इमेऽध्यसृजन्त सर्गा आह अद्भ्यो वा इदगम् समभूत् तस्मादिदगम् सर्वम् ब्रह्म स्वजम्भिरि तस्मादिदगम् सर्भुम् शिथिलमिव ध्रुवमिवाभवत् प्रजापतर्वावदत् आत्मनात्मानम् विधाय तदेवानुप्राविशत् तदेषाभ्यनोक्ता विधाय लोकानि विधाय भूतानि विधाय सर्वाः प्रदिशो दिशश्च प्रजापतिः प्रथमजानृतस्य आत्मनात्मानमभिसंविवेशयति सर्वमेवेदमाप्त्वा सर्वमवरुध्य तदेवानुप्रविशति य एवम् वेद चतुष्टय आपो गृह्णाति चत्वारि वा अपादम् रूपाणि मेघोभिद्युत् स्तनयित्रर्वृष्टिः तान्येवावरुन्धे आतपतिवर्ष्या गृह्णाति ताः पुरस्तादुपदधाति एता वै ब्रह्मवर्चस्या आपः मुखत एव ब्रह्मवर्चसमवरुन्धे तस्मान्मुखतो ब्रह्म वर्धसितरः कोऽप्यागृह्णाति ता दक्षिणत उपदधाति एतावै तेजस्विनीरापः तेज एवास्य दक्षिणतो दधाति तस्माद्दक्षिणोऽर्धस्तेजस्वितरः स्थावरा गृह्णाति ताः पश्चादुपदधाति प्रतिष्ठिता वै स्थावराः पश्चादेव प्रतिष्ठति वहंते ता उतरत उपदसा वाएता वहतेव आकजते ओज एव्योत्तर दधा तस्माुरोज चित सी गृह मध्य उपदे अस्यामेव प्रतितिष्ठति पल्वल्या गृह्णाति ता उपरिष्टादुपादधाति असौ वे पल्वल्याः अमुष्यामेव प्रतितिष्ठति दिक्षोपदधाति दिक्षु वा आपः अन्नम् वा आपः अद्भ्यो वा अन्नम् जायते यदेवाद्भ्योऽन्नम् म्बा एतमरुणाः एतवो वातरशना ऋषयो चिन्वन् तस्मादारुणकेतुकः तदेशाभ्यनोक्ता हेतवो अरुणासश्च ऋषयो वातरशनाः प्रतिष्ठागम् सतधाहि समाहितासो सहस्रधाय समिति शतशश्चैव सहस्रशश्च प्रतिष्ठति य एतमग्निम् यगुचेनमेवम् वेद धानुदघ्नीमुत्तरभेदे खात्वा अपाम् पूरयति अपागम् सर्वत्वाय पुष्करपर्णगम् रुक्मम् पुरुषमित्युपदधाति तपो मे पुष्करपर्णाम् सत्यगम् रुक्मः अमृतं पुरुषः एतावद्भावास्ति यावदेतत् यावदेवास्ति तदवरुन्धे ओर्ममुपदधाति अपमेव मेधमवरुन्धे अथो स्वर्गस्य लोकस्य समष्ट्ये आपमापमपः सर्वाः अस्मादस्मादितो सहसञ्चस्तरद्धिदा इति वायुवस्मारश्मिपतयः वाय लोकम् वृणच्छिद्रम् वृण यास्तिस्रः परमजाः इन्द्रघोषा भो वुसुभिरेवाह्येवेति पञ्चचितय उपदधाति पान्तोऽग्निः या, या वा नेवाग्निः कञ्चिनुते लोकम् प्रणया द्वितीयामुपदधाति पञ्चपदाविराट् तस्या वा इयम् पादः अन्तरिक्षम् पादः योः पादः दिश पाद परोद गिराज्य प्रतिषति यि युचैनमे वेद अग्नि प्रणीगोपिता अभीष्टका उपदा अग्निहोत्रे दर्शपोर्णमासोबंधे चा दुर्माश अथो आहुह सर्वेषु यज्ञक्रतुष्विति अथ हस्माहारुणः स्वाजम्भुवः सावित्रः सर्वोऽग्निरित्यनदृषङ्गम् मन्यामहे नाना वा एतेषाम् वीर्याणि कमग्निम् चिनुदे सत्रियमग्निञ्चिन्वानः कमग्निञ्चिनुते सावित्रमग्निञ्चिन्वानः कमग्निदे नाचिकेतमग्निञ्चिन्वानः कमग्निम् चिनुते चातुर्होत्रियमग्निञ्चिन्वानः कमग्निञ्चिनुते वैश्वञ्चिन्वानः कमग्निञ्चिनुते उपानुवाक्यमाशुमग्निञ्चिन्वानः कमग्निममारुणकेतुकमग्निञ्चिन्वान इति वृषा वा अग्निः वृषाणौ हन्येतास्य यज्ञः तस्मान्मानुषद्यः सोत्तरवेदिषु क्रतुषु चिन्वेत उत्तरवेद्यागिह्यग्निश्चीयते प्रजाकामश्चिन्वीत प्राजापत्यो वा एषो अग्निः प्राजावत्याः प्रजाः प्रजावान्भवति य एवम् वेद पशुकामश्चिन्वीत ज्ञानम् वा एतत्पशूनाम् यदापः पशूनामेव पशुमान् भवति य एवम् वेद वृष्टिकामश्चिन्वीत आपो वृष्टिः पर्जन्यो भवति य एवम् वेद आमया वी चिन्वीत भेषजमेवास्मीकरोति सर्वमायुरेति अभितरज्ञश्चिन्वीत वज्रो वा आपः वज्रमेव भ्रातृव्येभ्यः प्रहरति स्मृत एनम् तेजःकामो यशःकामः ब्रह्मवत्यस कामः स्वर्गकामश्चिन्वीत एतावद्वावास्ति यावदेतत् यावदेवास्ति तदवरुन्धे तस्यैतद्व्रतम् वर्षति न धावेत् अमृतम् वा आपः अमृतस्यानन्तरित्ये नाप्सु मात्रपुरेशम् कुर्यात् न निष्ठीवेत् न विभहनस्नायात् गुह्यो वा एषो अग्निः एतस्याग्नेरनतिदाहाय न पुष्करपर्णानिहिरण्यम् वाधितिष्ठेत् एतस्याग्नेरनभ्यारोहाय न कोर्मस्याश्नीयात् मोदकस्याधातुकान्येन मोदकानि भवन्ति अधातुका आपः य एतमग्निम् चिनुते य उचैनमेवम् वेद इमानुकम्भुवनाशेषधेम इन्द्रश्च विश्वे आदित्तेरिन्द्रः सहसेषधातु आदित्तेरिन्द्रः सगणो मरुद्भिः अस्माकम् भू त्वपिता तनूनाम् आप्लवः स्वप्रप्लवस्व आण्डीभव जमामुहुः सुखादेम् देहम कलयो माचते छ्यामीर्षत उत्तिष्ठतमा स्वप्न अग्निछधं भारोम से जुजोष सह युवा सुसाचक्रन व् दें पुर तस्गिण्वजकोश स्वर्गो लोको ज्योतिषावृतः यो वैताम् ब्रह्मणो भेद अमृतेनावृताम् पुरीम् तस्मै ब्रह्म च ब्रह्मा च आयुः कीर्तिम् प्रजान्ददोह विभ्राजमानागम्हरिणीम् यशसा सम्परीवृताम् पुरगम् हिरण्मयीम् ब्रह्मा निवेशा पराजिता पराङ्गेत्यज्याभयी पराङ्गेत्यनाशकी यह चामुत्रचान् वेती विद्वान् देवासुरानुभयान् यत्कुमारी मन्द्रयते यद्ध्योषिद्यत्पतिव्रता यत अरिष्टम् यत्किञ्च क्रियते अग्निस्तदनुवेधति अश्रुतासश्रुतासश्च यज्वानो येऽप्ययज्वनः स्वर्यन्तो नापेक्षन्ते इन्द्रमग्निम् च ये विदुः सिकता इव सञ्जन्ति रश्मिभिः समुदीरिताः अस्माल्लोकादमुष्माच्च ऋषिभिरदात् रश्मिभिः अपेतबीतपि सर्पतातः ये त्रस्थपुराणा ये च नूतनाः अहोभिरद्भिरक्तुभिर्व्यक्तम् यमो ददात्ववसानमस्मै नृगुणन्तु नृपात्पर्यः अकृष्टायै चकृष्टजाः कुमारेषु कनीलेषु जारिणीषु च ये हिताः रेतः पीता आण्ड्रपीताः अङ्गारेषु च ये हुताः उभयान् पुत्रपौत्रगान् युवेहं यमराजगान् शरदः अदो यद्ब्रह्मविलबम् विदृढाम् च नमस्य च वरुणस्याश्विनो रग्नेः मरुताम् च विहायसा कामप्रयवणम् मे अस्तु स ह्येवास्मि ब्रह्मश्रवो रायोधनम् पुत्रानापो देवीरिहाहिता विशेषर्ष्णीम् गृध्रशीर्ष्णीम् च अपेतोनिररुतिगम्हथः परिबाधव्यश्वेतकुक्षम् निजङ्घगुंसपदोदरम् सतानि वाच्यायजा सः अग्नेनाशयसन्दृशः ईर्ष्या सूये बुभुक्षा मन्यम् कृत्याञ्चदीधिरे रसेनगुम् शुकावता अग्नेनाशयसन्दृशः पर्जन्यायप्रगायत दिवः पुत्रायमीषुषे स नो जपसमिच्छत इदम् वचः पर्जन्यायः स्वराजे हृदो अस्त्वन्तरन्तद्युजोत वयोभोर्वातो विश्वकृष्टयः सन्त्वस्मे स पिप्परा ओषधेर्देवगोपाः यो गर्भमौषधीनाम् गवाङ्कृणोत्यर्वताम् पर्जन्यः पुरुषीणाम् पुनर्मा मेत्विन्द्रियम् पुनराजस्पनर्भगः पुनर्ब्राह्मणमेतुमा पुनर्द्रविणमेतुमा यन्मेद्यरेतः पृथिवी नमस्कार यदोषधीरप्यसहरद्यदापः इदम् तत्पुनराददे दीर्घायुत्वायवर्चसे यन्मे वेतः प्रसिच्यते यन्म आजायते पुनः तेन माममृतम् कुरु तेन सुप्रजसम् कुरु अभ्यस्तिरोधा जायत तव वैश्रवणः सदा तिरोधे हि सपत्नान्नः ये अपोष्णन्ति केचन वाष्ट्रीम् मायाम् वैश्रवणः रथगम् सहस्रबन्धुरम् पुरुश्चक्रगुम् सहस्राश्वम् आस्थायाजाहिन बलिम् यस्मै भूतानि बलिमा वहन्ति धनङ्गावो हस्ति हिरण्यवस्वारे असामसुमतो यज्ञिजस्य श्रियम् बिभ्रतोऽन्नमुखीम् विराजम् सुदर्शने चक्रौञ्चे च वैरागे च महागिरौ स तद्वाट्टारगमन्ता सम्हार्यन्न करन्तव इति मन्त्रा आह यदि बलिगम् हरेत् हिरण्यनाभये पितुदये कौपे राजाजम् बलिः सर्वभूताधिपतये न महिति अथ बलिगम् हत्वोपतिष्ठेत क्षत्रम् क्षत्रम् वयेश्रवणः ब्राह्मणावजग्गस्मः नमस्ते अस्तु माहि पुंसेः अस्मात्प्रविश्याम् न मधीति अथ तमग्निमादधीत यस्मिन्नेतत्कर्म प्रयुञ्जीत तिरोधा भोः तिरोधाभुवः तिरोधास्वः तिरोधा भोर्भुवः स्वः सर्वेषाम् लोकानामाधिपत्ये सीतेति अथ तमग्निमिन्धीत यस्मिन्नेतत्कर्म प्रयुञ्जीत तिरोधा भोः स्वाहा तिरोधाभुवः स्वाहा स्वस्वा भोवस्व स्वाहा यस् काले सर्वा आहुतेर्भुआ भवुह्राह्मण मुखीना तस्का प्रयुंजी परे मद्याप सिद्य य एवम् वेद क्षुध्यन्निदमजानताम् सर्वार्था न यस्ते विधातुको भ्राता ममान्तर्हृदये श्रितः तस्मा इमग्रपिण्डम् जुहोमि समेऽर्थान्मा विबीत् मय यप्रसक्य राजा साहिने नमो वयम् वै श्रवणाय कुर्महे स मे कामान् कामकामाय मह्यम् कामेश्वरो वै श्रवणो ददातु कुबेराय वै श्रवणाय महाराजाय नमः केतवो अरुणासश्च ऋषयोवातरशनाः प्रतिष्ठागं सदधाहि समाहितासो सहस्रधाय सम् शिवा नः सन्तमा भवन्तो दिव्या आपोषधयः स्मृणेका सरस्वती माते व्योमसन्दृशि संवत्सरमेतद्व्रतम् चरेत् दो वामासौ नियमः समासेन तस्मिन्नियमविशेषाः चतुर्थकालपानभक्तः स्यात् अहरहर्वाभैक्षमश्रीयात् ओदुम्भरेभिः समिद्भिरग्निम् परिचरेत् पुनर्मा मेत्विन्द्रियमित्येतेनानुवाकेन उद्धृतपरिपोताभिरग्भिः कार्यम् कुर्वीत असञ्चयवान् अग्नये वायवेशोर्याय ब्रह्मणे प्रजापतये चन्द्रमसे नक्षत्रेभ्यः ऋतुभ्यः संवत्सराय वरुणायारुणायेति व्रतहोमाः प्रवर्ग्यवदादेशः अरुणाः काराणयः अरण्ये धीजीरन् भद्रम् कर्णेभिर्चित्वे च पित्वा महानाम्नेभिहृदगम् सग्दः स्पर्श्य तमाचार्यो दद्यात् शिवा नः सन्तमेत्योषधीरालभते सुवृणीकेति भूमिम् एवमपवर्गे धेनुर्दक्षिणा ककुंसम्वासश्च क्षौमम् अन्यद्वा शुक्लम् यथाशक्ति वा एवज्ञस्वाध्यायधर्मेण तपस्वी पुण्या भवति तपस्वी पुण्या भवति तपस्वी भद्रम् दधातु ओम् साः साम् दिः इति तैत्त्र्य आरण्यः प्रथमप्रश्नः